श्रीहरये नमः अथ द्वादशोऽध्यायः मैत्रेय उवाच इति ते वर्णितक्षक्ता कालाक्यक् परमात्मनः महिमा वेदगर्भोत यदा स्राक्षिन्निभोत मे ससर्जाग्रे अन्धदामिश्रम् अततामिश्रमाधिकृत् महामोहं च मोहं च तमस्चा तमश्चाज्ञानवृत्तयः दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्वमन्यथा भगवद्यानपूतेन मनसान्याम् मनसान्यां सृजत् सनकम् च सनन्दम् च सनातनम् अधात्मभूः सनत्कुमारम् च मुनीन् निष्क्रियान् ऊर्ध्वरेतसः तान् बभाषे स्वभू पुत्रान् प्रजासृजत पुत्रकाः तन्नैश्चन्मोक्षधर्माणो वासुदेवपरायणाः सोऽवध्यातसुतैरेवं प्रत्याख्यातानुशासनैः क्रोधं दुर्विषहं जातं नियन्तुमुपचक्रमे धियान् गृह्यमाणोऽपि भ्रुवोर्मध्या रजापतेः सद्यो जायत तन्मन्यो कुमारो नीलोहितः सवैरुरोधदेवानां पूर्वजो भगवान्भवः नामानि कुरु मेधात स्थानानि च जगद्गुरो इति तस्य वचः पाद्मो भगवान् परिपालयन् अभ्यदात् ब्रयावाच मा रोदिस्तत्करोमि ते यधरोतिस्ररश्रेष्ठ सोद्वेग इव बालकः ततस्त्वामभिधास्यन्ति नाम्ना रुद्र इति प्रजाः कृति त्रियाण्यसूर्व्योम वायु अग्निर्जलं मही श्चन्द्रस्तपश्चैव स्थानान्यग्रे कृधानि मे मन्योर्मनोर्महीनसो महान् शिवरुदध्वजः उग्ररेता भवः कालो वामदेवो धृतव्रतः निर्वृद्धिरुसनोमोच इरावदीसुधा दीक्षा रुद्राण्यो रुद्रते स्त्रियः गृहाणैतानि नामानि स्थानानि च सयोक्षणः येभिः सृजः प्रजानामसि यत्पतिः इत्यादिष्टस गुरुणा भगवान् नीललोहितः सत्त्वाकृतिस्वभावेन ससर्जा आत्मसमाः प्रजाः रुद्राणां रुद्रसृष्टानां समन्ताद्ग्रसतां जगत् निसाम्यासङ्ख्यसो यूतान् प्रजापतीरसङ्कथा अलं ईतृशीभिः सुरोत्तमा मया सखदहन्दीभेर्दिशश्चक्षुर्भिरुल्पणैः तप आतिष्ठभद्रं ते सर्वभूतसुखावहं तपसैव यथा पूर्वं विश्वमितं भवान् तपसैव परं ज्योते भगवन्तं मधोक्षजम् सर्वभूधगुहावासं अज्ञसा विन्दधे पुमान् मैत्रेय उवाचा एवमात्मभुवाधिष्ठ परिग्रं यगिरां पतिं भाडमित्यमुमामन्त्र्य विवेशतपसेवनम् तस्य लोकसन्तानहेतवः मरीचिरर्द्रियङ्गिरसौ पुलस्त्यपुलः क्रतुः भृगुर्वसिष्ठो दक्षश्च दशमस्तत्र नारदः उत्सङ्गा जज्ञे दक्षोऽष्टात् स्वयम्भुवः प्राणाद्वसिष्ठसो भृगुस्त्वशीकराक्रतुः पुलहो नाभितो जज्ञे पुलस्त्यकर्णयोरुषिः अङ्गिरामुखतोष्णोद्री मरीचिर्मनसो भवद् अधर्मपृष्ठतो यस्मात् मृत्युर्लोकभयङ्करः हृदि कामो ब्रुवक्रोधो लोपश्चादरदश्च ताद आस्याद्वाक्सिदन्धवो मेढ्रात् निरुतिपयोरघाश्रयः छायायाकर्दमो जज्ञे देवहूत्यापतिः प्रभुः मनसो देहतश्चेतं जग्ये विश्वकृतो जगत् वाचं दुहितरं तन्वीं स्वयं भूहरतिं मनः अकामांश्च के चक्तं सकामयिति न श्रुतं कृतमतिं विलोक्य पितरं सुताः मरीचिमुख्यामुनयो विश्रम्भा प्रत्यबोधयन् नैतत्पूर्वै कृतं त्वद्यं न करिष्यन्ति चापरे यत्त्वं दुहितरं कच्छेरं निहृह्याङ्गजं प्रभुः तेजीयसामभिह्ये तन्न शुश्लोक्यं जगद्गुरो यद्वरुद्धम् अनुतिष्ठन्द्वै लोकक्षेमाय कल्पते तस्मै नमो भगवते य इतं स्वेन रोचिषा आत्मस्थं व्यञ्जयामास सधर्मं पातुमर्हति स इत्तं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् प्रजापती प्रजापती तत्या जव्रीडितस्तधा तां नीहारं जगृहोर्घोरां निहारं यद्वितोस्तमः कदाचित् ध्यायतः सृष्टोर्वेदासंश्चतुर्मुखात् कथं श्रयस्यां यहं लोकान् समवेदान्यथा यतापुरा, चातुर्होत्रं कर्म तन्त्रम् उपवेतनयैः सह धर्मस्य पादश्चत्वार तैतवाश्रमवृद्धयः पितुर उवाच स वै विश्वसृजामीशो यद्यत्येनासृजद्व तन्मे ब्रूहि तपोधन मैत्रेय उवाच ऋ यजुश्राम अथर्वाक्यान् वेदान् पूर्वादिभिर्मुखैः शस्त्रमिज्ञां स्तुतिस्तोमं प्रायश्चित्तं यदाक्रमात् आयुर्वेदम् धनुर्वेतं गान्धर्वं वेदमात्मनः स्थापय सा सृज्वेद क्रम पूर्वादिर्मुखेहासपुराणा पंचम वेतमीश्वर सर्वे वक््रुजे सर्वर्शण षोट्युक्त पूर्वक्ता आम अतिरात्र वाजपेयं सगोसवं विद्यातानं तपसत्यं, धर्मस्येति पदानि च आश्रमांश्च यथा सङ्ख्यं मसृजत्सगवृद्धिभिः सावित्रं प्राजभत्यं च ब्राह्मं चातबृहत्तथा वार्तासञ्जयशालीन सुलोच इति वैगृहे वैकासनावालकिल्यौदुम्बरापेन पावने न्यासे कुटीचकपूर्वं बह्वो दोहंसनिष्क्रियौ आन्वीक्षिके त्रयीवार्ता दण्डनीतिस्ततैव च एवं व्याहृतयश्चासन् प्रणवो ह्यस्य दह्रतः तस्योष्णिकासीलोमभ्यो गायत्री चत्वचो विभोः दृष्टुं मां सात् स्नतो प्राणतो भवत् स्पर्सस्तस्या भवज्जीव उष्माणम् इन्द्रियाण्याहुः अन्तस्ताबलमात्मनः स्वरासप्तविहारेण भवन्ति स्म प्रजापतेः सब्दब्रह्मम् आत्मनस्तस्य व्यक्ताव्यक्तात्मनः परः ब्रह्मा बभाति विदतो नानाशक्त्युभप्रोह्मितः ततो परामु भाताय ससर्गाय मनोदथे ऋषीणां भूरिवीर्याणाम् अभिसर्गमविस्तृतं ज्ञात्वा तत् हृदये भूय चिन्तयामास कौरव अहो अद्भुतमे तन्मे व्यापृतस्यापि निध्यत न ह्येधन्ते प्रजा नूनं विघातकम् एवं युक्तकृतस्तस्य दैवं सावेक्षतस्तथा कस्य रूपमबोद्वेतां यत्कायमभिचक्षते ताभ्यां रूपविभागाभ्यां मिथुनं समभत्यथां यस्तु तत्प्रपुमांसोऽभूत् मनुस्वायम्भुवः स्वराढ् स्त्रीयासीत् शतरूपाख्यां महिष्यस्य महात्मनः तदा मिथुनधर्मेण प्रजाहेदाम्बभूविरे स चापि सतरूपायां पञ्चाशत्पान्यजीजनत् प्रियव्रततोत्तान्न बाधौ तिश्रकन्याश्च भारत आहुतिर्देवहूतिश्च प्रसूतिरिति सत्तमा आहुतिं रुचये प्राधात् कर्दमायतु मध्यमा दक्षायात् प्रसूतिं च यत आपूरितं जगत् इति श्रीमद्भगवते महापुराणे तृतीयस्कन्धे द्वादशोऽध्यायः श्रीहरये नमः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुमहाराजिकी जय